नमस्सर्वेभ्यः अस्माकं योगनिष्यजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं धर्मः नाम कः इति करपत्रं पठ्यमानमस्ति तत्र धर्मः कः इति वयं चर्चां कृतवन्तः गतवर्गे अत्र अस्मिन् करपत्रे पूर्वं ये विषयाः चर्चिताः तेषामेव पुनः स्पर्शः भवति परन्तु किञ्चित् स्ट्रक्चर्ड् रूपेण व्यवस्थितरूपेण तेषां विषयाणां स्पर्शः भवति तर्हि अस्माभिः किं दृष्टमिति चे मनुष्याः सर्वे मनुष्याः यथा अन्ये जीवाः संति तथैव मनुष्याः अपि सुखम् इच्छन्ति एतादृशी इच्छा सुखस्य इच्छा वस्तुतः न केवलं मनुष्येषु अपितु च स अपि तु सर्वेषु जीवेषु वर्तते एककोषः जीवः वा कृमयः बिडालः शुनकः अन्यः यः कोऽपि पशुः भवतु नाम सर्वे सुखम् इच्छन्ति सर्वे सुखार्तिनः सन्ति परन्तु अस्माभिः दृष्टं यत् मनुष्याणाम् अपि च पशूनां मध्ये सुखस्य अन्वेषणे भेदः वर्तते पशवः सीमितवस्तुभ्यः तृप्ताः भवन्ति इत्युक्ते कृते उदरं पूर्णं भवति सुरक्षितं स्थानं लब्धं निद्रा निद्रास्थानं लब्धं अपि च मैथुरस्य अवकाशः अस्ति तर्हि ते सम्पूर्णतया तृप्ताः भवन्ति तेषां डिज़ैन् तावदेव अस्ति अन्यत् किमपि ते न इच्छन्ति परन्तु अस्माभिः दृष्टं यत् मनुष्याणां तथा नास्ति मनुष्याः मनुष्येषु एतादृशी इच्छापि वर्तते इत्युक्ते पूर्णमुदरं सुरक्षितं स्थानम् इति पशोः ये धर्माः सन्ति ते अपि मनुष्येषु वर्तन्ते परन्तु तदतिरिक्तम् अन्यत् अपि किमपि अस्ति तत् किम् इति चेत् तदेव अस्ति मानवः धर्मः मानवः धर्मः अस्माभिः वारं वारम् उक्तम् प्राप्तिः अनन्तेषणा एव मनुष्येषु विलक्षणः धर्मः वर्तते मनुष्याः सीमितवस्तुभ्यः तृप्ताः न भवन्ति तेषाम् इतोपि निरन्तरम् आकाङ्क्षा वर्तते अन्यत् किम् अहं इति तादृशी आकाङ्क्षा सर्वदा वर्तते ते सर्वदा योजनां कुर्वन्ति चिन्तयन्ति अन्वेषणं सर्वदा अन्वेषणं कुर्वन्ति तेषाम् अन्वेषणस्य अन्तः एव नास्ति यत्किमपि क्षेत्रं भवतु नाम जीवनस्य एतादृशी अनन्तकामना वर्तते सर्वत्र वस्तुतः अनन्तकामना इति या इच्छा वर्तते तस्य प्रसारः अन्येषु क्षेत्रेषु अपि दृश्यते परन्तु एतानि वस्तूनि सीमितानि सन्ति इति कृत्वा तेभ्यः अनन्ततृप्तिः अनन्त अनन्तसुखं प्राप्तुं न शक्यते इति मनुष्याः न अवगच्छन्ति तेन अवगच्छन्ति इति कृत्वा तेषां किं भवति इति चेत् तेषां सर्वदा सङ्घर्षः भवति तेषाम् अन्ते यः पशुधर्मः अस्ति तस्य तस्य बलेन ते सर्वदा किमपि कस्यचित् अन्वेषणं कुर्वन्ति यत्किमपि लौकिकवस्तु भवतु नाम तस्य पृष्ठतः धावन्तः सन्ति परन्तु तेषाम् अन्ते तत्र परमपुरुषस्य चैतन्यं परमपुरुषस्य विवेकः अपि अस्ति राश्नालिटि अपि अस्ति राश्नालिटि आफ् द कान्शियस्नेस् अपि अस्ति इति कृत्वा वे अन्यत् किमपि अन्यस्य किमपि अन्वेषणं कुर्वन्ति इति कृत्वा तत्र सीमितवस्तुभ्यः तृप्तिः नास्ति अन्यस्य किमपि अन्वेषणम् अस्ति इति कृत्वा सर्वदा सङ्घर्षः अस्ति परन्तु प्रायः जनाः न अवगच्छन्ति मम मयि तादृशी सङ्घर्षः अस्ति इति अपि ते न जानन्ति यतोहि वयं सर्वे पशुभ्यः विकसिताः इति कृत्वा पशुधर्मः बहु प्राधान्यरूपेण अस्ति प्रायेषु मनुष्येषु पशुधर्मः प्राधान्यरूपेण अस्ति इति कृत्वा ते किं कुर्वन्ति इति चेत् तेषाम् अनन्त एषणा या एषणा अस्ति तस्य प्रसारः लौकिकवस्तुषु भवति इति कृत्वा तस्य पृष्ठतः ते धावन्तः भवन्ति अतः एव तत्र यत्किमपि भवतु धनं वा भवतु शक्तिः भवतु पदवी भवतु यत्किमपि तेन मनुष्यः तुष्टः न भवति तस्य इतोपि अधिककामना अस्ति यतोहि तस्य अन्ते अनन्त वर्तते इति अस्माभिः दृष्टम् Uh, शारीरिकभोगेषु अनन्तस्य अन्वेषणं कुर्वन्ति परन्तु तृप्तिः न लभ्यते अतः पुनः कुर्वन्ति पुनः तृप्तिः न लभ्यते पुनः कुर्वन्ति इत्युक्ते क्षणिकक्षणिकसुखं तु लभ्यते एते लौकिकवस्तुभ्यः क्षणिकसुखं तु लभ्यते परन्तु अनन्ततृप्तिः न लभ्यते इति कृत्वा ते अत्र विषयसैकल् मध्ये पतन्ति पुनः पुनः तदेव कुर्वन्ति पुनः सुखं न लभ्यते तृप्तिः न लभ्यते अतः पुनः तस्य एव पृष्ठतः गच्छन्ति इति कृत्वा तेषां जीवनमेव कदापि ते सन्तुष्टाः न भवन्ति इत्युक्ते तदेव वयं पृच्छामः चेत् तत्र कमपि पुरुषं पृच्छामः चेत् तद् भवान् सन्तुष्टः अस्ति वा इति पृच्छामः चेत् सः सर्वदा वदति एतत् सर्वम् मम पार्श्वे मम पार्श्वे धनमस्ति पुत्राः सन्ति सर्वमस्ति गृहम् सर्वमस्ति परन्तु तथापि किमपि किमपि तत्र मनसि किमपि तत्र रिक्तस्थानमस्ति किमपि तत्र रिक्तस्थानमस्ति अहं किम् अन्यत् किमपि इच्छामि परन्तु ते जानन्ति किम् इच्छन्ति इति तत्र समस्या अस्ति विडम्बना अस्ति मनुष्यधर्मस्य अपि च मानवधर्मस्य अनयोः धर्मयोः मध्ये सङ्घर्षः अस्ति अनयोः मध्ये सङ्घर्षः अस्ति परन्तु ते जानन्ति इति कृत्वा सर्वदा मनुष्याः अतृप्ताः एव भवन्ति अतृप्ताः भवन्ति परन्तु अत्र अस्माभिः दृष्टम् अस्माकं मानवधर्मः कः सर्वेषां कृते एकः यद् एव धर्मः अस्ति अनन्तेषणा इति एकः एव धर्मः समानः धर्मः सर्वेषु मनिषेषु वर्तते नानाधर्मः न एकः एव धर्मः अस्ति तत्तु अस्माभिः दृष्टं स्पष्टतया दृष्टं सुन्दररीत्या दृष्टं यत् अस्माकं सर्वेषाम् एकः एव धर्मः अस्ति वयं सर्वे मानवकुटुम्बस्य सदस्याः स्मः अनन्त सत्ता कास्मिक् ऐण्टिटि ज्ञातुं टु नो दट् कान्शियस्नेस् ज्ञातुम् अस्माकं सर्वेषाम् इच्छा वर्तते अस्माकं मौलिकस्वभावः धर्मः अस्ति एकाएव एव सत्ता अनन्ता भवितुम् अर्हति अनेके अनेके अनेकाः सत्ताः न भवितुम् अर्हन्ति एके एका एव सत्ता इति तु कदाचित, जनाः चिन्तयन्ति ईश्वरः अपि अस्ति पिशाचः अपि अस्ति अनयोः मध्ये द्वन्द्वः अस्ति तथा तादृशभ्रमः भवति जनानां मध्ये परन्तु तथा नास्ति अस्मिन् जगति एका एव सत्ता अनन्ता अस्ति द्वे सत्ते अनन्ते न भवितुम् अर्हतः सा एका सत्ता कास्मिक् एण्टिटि अस्ति तस्य पृष्ठतः एव अस्माकम् इच्छा वर्ति सा एव अनन्ता अस्ति देट् इस् ओन्लि वि Infinite Entity, the Cosmic Entity, that Entity only can fulfill the द इन्फैनैट् डिसैर् देट् वि हेव् मनुष्यं विहाय अन्यस्य एतादृशी विका एतादृशः विकासः न जातः मनुष्यः एव सर्वोत्तमः अस्ति विकासस्य विकासं विकासदृष्ट्या पश्यामः चेत् मनुष्यः एव सर्वोत्तरः उच्चतरः स्थाने तस्य अपेक्षया अन्यस्य अन्यस्य जीवस्य सामर्थ्यं नास्ति सर्वोच्चतमं सामर्थ्यम् अस्मिन् जगति केवलमनुष्येषु वर्तते अतः मनुष्येषु स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते अस्माकं मनः अपि सम्पूर्णतया वर्धितं वर्तते स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते मनुष्येषु इति कृत्वा अनन्तस्य साक्षात्कारः केवलमनुष्येन एव भवितुम् अर्हति न अन्येन परन्तु यः मनुष्यः एतदवगच्छति यत् तस्य अन्त अन्तश्चक्षुः उद्घाटितः सः अवगच्छति मम धर्मः कः इति अवगच्छति तर्हि गुरुप्रसादेन परमपुष पुरुषस्य कृपा कृपया सः अस्मिन् धर्मे अस्मिन् धर्मे अग्रे गन्तुं शक्नोति यस्य कृते ईश्वरस्य कृपा परमपुरुषस्य कृपा वर्तते सः एव अग्रे गन्तुं शक्नोति इति परन्तु अस्माभिः दृष्टं यस्य अन्तश्चक्षुः उद्घाटितः तेन सङ्घर्षः कर्तव्यः लक्ष्यस्य पूर्तये तेन यत्नः कर्तव्यः बहु कालानन्तरम् अस्माभिः मनुष्यजीवनम् अस्माभिः प्राप्तं खलु अतः अस्माकं जीवनस्य लक्ष्यं किम् इति चेत् प्रथमतया जन्ममरणचक्रात् मुक्तिः जन्ममरणचक्रात् मुक्तिः आत्ममोक्षः अपि च जगतः कल्याणम् इत्यपि अपेक्षितमस्ति अस्माकं लक्ष्यद्वयमस्ति इत्युक्ते जगतः कल्याणम् इत्युक्ते एकमेव लक्ष्यं जगतः कल्याणं किमर्थं कुर्मः इति चेत् आत्ममोक्षार्थं जगत् जगतः हितम् आत्ममोक्षार्थं वयं कुर्मः अपि च आत् जगतः हितम् इति यदा वयं वदामः यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः त तदानीं वयम् एवमेव न तिष्ठामः अस्माकं चक्षुः उद्घाटितः चेत् वयम् अस्मिन् अस्यां दिशि वयं गच्छामः चेत् तदानीम् अस्माभिः अन्यस्य कृते सहायमपि कर्तव्यम् अन्येषां कृते अपि अस्माभिः ते अपि एतादृशलाभः प्राप्तुं शक्नुवन्ति इति कृत्वा अस्माभिः तैः सह समयः यापनीयः समयः यापनीयः ते अपि अग्रे गन्तुं शक्नुवन्ति वा इति चेत् तदर्थम् अस्माभिः समयः यापनीयः परन्तु यदा वयं पश्यामः यत् अस्माकं सम्भाषणद्वारा तेषाम् उन्नतिः ते न भवति यतोहि ते सिद्धानाः न सिद्धाः न अस्माकं सम्भाषणद्वारा अग्रे गमनार्थं मार्गः नास्ति न ना दृश्यते यतोहि ते न सिद्धाः इति चेत् तदानीं तत्र अस्माभिः इतोपि समयः न यापनीयः यतोहि समयः अस्माकमपि अधिकः नास्ति समयस्य व्यर्थः व्यर्थता न भवेत् खलु तर्हि व्यर्थं समयस्य यापनं मास्तु तर्हि ते सिद्धाः सन्ति चेत् वयं सर्वं सर्वं कुर्मः तेषां कृते परन्तु ते सिद्धाः न सन्ति चेत् तदानीं तादृशपुरुषं त्यक्त्वा वयम् अग्रे गच्छामः यतोहि अस्माकं मनः मनसः अधः पतनं कदापि न भवेत् सर्वदा अस्माकं मनसः उन्नयनमेव भवेत् न तु अधो अधोगमनम् इति तदर्थम् अस्माभिः द्रष्टव्यं यत्किमपि वयं कुर्मः तेन अस्माकम् उन्नयनं भवति इति तदर्थम् अस्माभिः एवं चिन्तनीयं भवति इति तावत्पर्यन्तम् अस्माभिः दृष्टमासीत् तर्हि अत्र अस्माकं मनुष्यजन्मः लब्धः म मनुष्यजन्मं लब्धं तर्हि सुन्दरः अवसरः अस्ति अस्माकम् अयं बहु मुख्यविषयः अस्ति पूर्वमपि चर्चितम् अस्य अवकाशस्य व्यर्थता मास्तु अस्माभिः अवगन्तव्यम् अस्माकं धर्मः कः तत्र अस्माभिः अग्रे गन्तव्यं ये जनाः न जानन्ति ते अपि ज्ञात्वा वा ज्ञात्वा वा ए एतादृश एतादृशी एतादृशया इच्छया एव ते नियन्त्रिताः सन्ति ते जानन्ति परन्तु ते एतादृशी इच्छया अस्ति तया एव ते नियन्त्रिताः सन्ति परन्तु ते जानन्ति केचन धीराः ये सन्ति ते एव एतादृशम् अवगच्छन्ति मानवः धर्मः कः इति ते अवगच्छन्ति अस्माकं मनुष्याणां स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा वयमग्रे गन्तुं शक्नुमः परन्तु अन्येषां जीवानाम् एतादृशी व्यवस्था नास्ति तेषां मनः तावत् वर्धितं नास्ति तेषां स्पष्टतया प्रतिबिम्बितचैतन्यं नास्ति इति कृत्वा तेषाम् अन्येषां पशूनाम् अनन्तेषणा वर्तते न वर्तते परन्तु मनुष्याणां तु अनन्तेषणा वर्तते किमर्थं चेत् अस्माकं तु स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते ये मनुष्याः योगनिश्चजीवने प्रवृत्ताः भवन्ति तेषां कृते तु मनः वर्धते एव अस्माकं तेषां मनसि चैतन्यस्य प्रतिबिम्बः इतोपि स्पष्टं भवति यतोहि ते, ते तस्मिन् सर्वदा प्रयत्नं कुर्वन्ति इति कृत्वा तेषां कृते आ, अग्रे गमनस्य मार्गः अस्ति ते अग्रे गत्वा निश्चयेन निश्चयेन तेषाम् अग्रे अग्रगतिः सर्वदा भवति एव ये अस्मिन् सिन्सियर् रूपेण सिन्सियर् रूपेण अस्मिन् प्रवृत्ताः सन्ति अग्रगतिः अवश्यं भवति तत्र संशयः नास्ति एव इति ये अस्मिन् अस्मिन् प्रवृत्ताः सन्ति ते स्वयं स्व अनुभवेन वक्तुं शक्नुवन्ति अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र आ, द फोर्थ पेराग्राफ् द कास्मिक् एण्टिटि अलोन् इस् इन्फिनेट् इति तत्र ततः आरभ्य पेज् सिक्स् तत्र संस्कृतरूपेण अपि पठितुं शक्नुवन्ति अथवा आङ्ग्लभाषायां पठितुमपि शक् शक्नुवन्ति तर्हि प्रिया भगिनी पठितुमिच्छति वा नमस्कारः The cosmic entity alone is infinite and eternal. It alone is limitless. And the eternal longing of human beings for happiness can only be satiated by realization of the infinite. The ephemeral nature of worldly possessions, power and position can only lead one to the conclusion that none of the things of the finite and limited world can set at rest the everlasting urge for happiness. their acquisition nearly gives to further longing only realization of the infinite can do it the infinite can be only one and that is the cosmic entity hence it is only the cosmic entity that can provide everlasting happiness the quest for which is the characteristic of every human being in reality beyond this human urge is hidden the desire the longing no Behind this human urge is hidden the desire, the longing for attainment of the cosmic entity. It is the very nature of every living being. This alone is the dharma of every person. Manuhu yaha pratyekam padartam anantaropena praaptum ichyati. Paranthu sarvani... Manushya. Manushya. Oh, Manushya. Okay. Yes. Manushya. Manushya. प्रत्येकं पदार्थम् अनन्तरूपेण प्राप्तुम् इच्छति परन्तु सर्वाणि वस्तूनि अनन्ति अनन्तानि न सन्ति अतः मनुष्यः यः इच्छा इच्छायाः मनुष्यस्य इच्छायाः पूर्तिः कदापि न भवति ओ सम् आफ़् दिल्बिट् मिस्सिङ्ग् द्रष्टुं न शक्यते खलु महोदय अत्र करपत्रं वा मया प्रेषितं खलु ईमेल् द्वारा तन्ना तु सिक्स् एट् सिक्स् अत्र पी डि एफ़् मध्ये डौन्लोड् न कृतं वा भगिनी भगिनि किं प्रेषितवती अद्य तदेव उद्घाटितवती अहं तत्र न दृश्यते वा तत्र शकारा न दृश्यते मनु मनु य इति लिखितमस्ति न भवत्याः प्रायः तत्र फाण्ट् किमपि मिस्सिङ्ग् अस्ति इति कृत्वा सम्पूर्णतया डौन्लोड् न अभवत् मया तु द्रष्टुं शक्यते अस्तु भगिनि नास्ति चिन्ता अत्र आङ्ग्लभाषया पठित पठितवती खलु तस्य आधारेण वदतु आं भगिनि सो तत्र केवलं परब्रह्मन् एव अन अनन्तरूपं परब्रह्मणः अनन्तरूपम् एव अस्ति um apicha ah uh, saha api anantah and uh what is for eternal anadi anadi ananta sat anadi anantah asti apicha saha eva um sri allodes um uh, सी तस्य एव सीमा सीमा एव न भवति असीमिताः अस्ति सः एव अर्थात् एव अण्ड् मनुष्यः सर्वदा सर्वदा किञ्च प्राप्तुम् इच्छति सह चिन्तयति ए एतत् एतत् प्राप् प्रा, एतत् प्राप्यते चेत् अहं बहु सन्तुष्टं भवामि भविष्यामि इति किन्तु तत् क्षणे मात्रं सन्तुष्टः भव भवति पुनः तस्य किमपि अन्य किम् इच्छति सर्वदा आ, न, न, लौकिक लौकिकविषये सर्वदा एतत् एव भवति किञ्चित् काले एव तुष्टः अनन्तरम् अस आसा, असन्तुष्टः भवति सः सो so, केवलं परमात्मान् एव अनन्त आनंत, अनन्तरेषणम् एव अनन्त अन्वेषणम् एव सर्वदा दीर्घकालं सन्तोषं सह एव तस्य प्राप्तिः एव दीर्घकालसन्तोषः ददाति एण्ड् um, धर्मह uh, एव तदेव uh, सर्वदा uh, मम मनुष्य इच्छा इच्छा भवति किं न किं च अपि प्राप्तव्यम् इति किन्तु तस्य बिहैण्ड् देट् द डिसैयर् फार् ह्यूमे बिहैण्ड् दस् ह्यूमन् डिसैयर् फार् अचीविङ्ग् सम्थिङ्ग् आर् द अदर् the attainment of that parabrahman is there and uh, it is hidden behind that asya guptaropena bhavati sarvasin sarvas sarve manushye ante etat bhavati eva kintu te sarvena na jananti to re, to ीन् दि कास्मिक् एण्टिटि सः परभ्रमणं परब्रह्म एव प्रा परभ्रमणप्राप्ते एव मम सर्वदा स्वभावः अस्ति सर्व सर्वमनुष्यस्य स्वभावः एषः एषः एव परब्रह्मणप्राप्तिः एव इच्छा भवति किन्तु बहु गुप्तरूपेण भवति निगूढा भवति एष एतदेव सर्व मानवस्य मानवधर्मः अपि एतत् एव परब्रह्मणस्य प्राप्तिः एव धन्यवादः सम्यक् भगिनि समीचीनं धन्यवादः सम्यक्तया उक्तवती तर्हि मानवः धर्मः एकः एव अस्ति इति वयं जानीमः सर्वेषां मनुष्याणाम् एकः एव धर्मः नानाधर्माः न सन्ति अत्र कतिवारं वयं वदामः चेदपि न्यूनमेव अस्ति किमर्थं चेत् जनाः न जानन्ति नानाधर्माः सन्ति इति सर्वदा चिन्तयन्ति यतो हि तादृशविचारः अस्ति लोके परन्तु धर्मः एकः एव अस्ति अत्र <imit> अस्मिन् परिच्छेदे सुन्दरतया एतत् सर्वम् उक्तमस्ति वयं सर्वे मनुष्याः एकस्य कुटुम्बस्य सदस्याः वसुधैवकुटुम्बकम् इति वयं वदामः खलु सर्वे एकस्य कुटुम्बस्य सदस्याः स्मः अनन्तेषण अस्माकं मौलिकः धर्मः अस्ति अत्र एका सत्ता अनन्ता भवितुम् अर्हति अनेकाः सत्ताः अनन्ताः भवितुं नार्हन्ति अत्र यदि अत्र द्वे सत्ते आनन्ते स्तः तदानीं तत्र द्वयमपि आनन्तमिति वयं स्वीकर्तुं न शक्नुमः अनन्तं न भवितुमर्हति एका एव भवितुम् अर्हति समग्रे जगते एका एव सत्ता अनन्ता भवितुम् अर्हति अनन्तस्य कामना एव अस्मान् मानवं करोति तदेव अस्मान् पृथक् करोति अन्येभ्यः अस्मान् मानवं करोति एषा इच्छा कारणमस्ति येन मनुष्याणाम् अपेक्षया उच्चतरः विकसितः अन्यः जीवः न भवितुम् अर्हति सर्वोच्चतमं सामर्थ्यं मनुष्येषु वर्तते येन वयं जगति पूर्णताम् अर्थं च आनयितुं शक्नुमः इत्युक्ते तत्र आ, we possesses the highest capacity necessary for bringing fulfillment and meaning to the universe the desire to know the cosmic entity right parama purushasya prasadena eva asmakam na kevalam manavarupam praptam apitu manav jivanasya lakshya purte api asmakam avasaraha asti we not only got a human birth but also we have the opportunity of fulfilling the goal of life वयम् अन्तः बहिः च मानवाः भवितुम् अर्हामः इति बहु सुन्दरः विषयः अस्ति अस्य लक्ष्यस्य पूर्तये यत्नः करणीयः इदानीं प्रायः मनुष्याः बहिः मनुष्याः परन्तु अन्ते तु पशुस्वभावः एव वर्तते परन्तु अन्ते अपि वयं कथं मानवः भवितुम् अर्हामः इत्ये इति अस्माभिः यत्नः करणीयः अतः एव वयं जन्म प्राप्तवन्तः अपः अपवर्गः इति जन्मवर्णचक्रात् इति अभिप्रायः अस्ति अपि च एता उक्तं जगतः कल्याणं प्रति अपि अस्माकं कर्तव्यता वर्तते अनेन वयं तादृशं वातावरणं निर्मामः यत्र अस्माकं मनसः समृद्धिः भवेत् समृद्धिः भवेत् अस्माकं मनः सकारात्मकं भवेत् यथा मया उक्तं तत्र जगतः हितं इति वयं वदामः चेत् तदानीं यदा अस्माकम् अवसरः अस्ति अस्माकं चक्षुः उद्घाटितः तदानीम् अन्येषां कृते अपि अस्माभिः यत्नः करणीयः निश्चलप्रया प्रयासेन अन्या आ, ते अपि कथं मानवजीव जीवनस्य सार्थक्यतां प्राप्तुं शक्नुवन्ति इति अस्माभिः सहायं करणीयम् इति अस्माकं अस्माकम् उत्तरदायित्वमस्ति इट् इस् अवर् रेस्पान्सिबिलिटि रैट् सो अस्माभिः दृष्टं यत् द कास्मिक् एण्टिटि अलोन् केन् प्रोवैड् दट् एवर् लास्टिङ्ग् हेपिनेस् रैट् द क्वेस्ट् फार् विच् इस् दि केरेक्टरिस्टिक् आफ़् एव्री ह्यूमन् बीङ्ग् एन् तु बहु मुख्यविषयः अस्ति अण्डर्स्टाण्डिङ्ग् दिस् इस् वेरि वेरि इम्पोर्टेण्ट् सो नो मेटर् हौ मी अवर् टैम्स् वि से इट् इट्स् नाट् एनफ़् बकास् We need to get it deep in our heart that the cosmic entity alone can provide the everlasting happiness. The quest for which is the characteristic of every human being. Punaha punaha ekahayeva vishyeha uchyate chhe tad asma ka man te gachyati. Iti krutva tatra punaha punaha uchyate varam varam uchyate. The cosmic entity alone can provide the everlasting happiness. Iti kamektya asma vihi. Martavim. So, this is a very beautiful opportunity for us to realize our full potential and help others also do the same, right? So, asmakam purna kshamata ka asti ti avagantum asmakam avakashaha asti. Api ce anyeshaam sahayam so, kartum api asmakam sundaraha avakashaha asti. Ayam tu bahu mukya vishya asti. Purvam api asmavihi charchitam. Asmavihi pasubhya ha vikasitaha iti krithwa asmakam ante pasugunaha api santi. न कोऽपि संशयः अस्माकं तु साक्षात्कारः अस्ति पशुगुणानां तेन सह वयं पशुभ्यः भिन्नाः अपि स्मः तत्र कोऽपि प्रश्नः एव नास्ति वयं पशुभ्यः भिन्नाः अपि स्मः इत्यत्र कोऽपि प्रश्नः न भवितुमर्हति अनन्तरं ज्ञातुम् अस्माकम् एषः आग्रहः अस्ति तादृश तादृशः आग्रहः पशुषु नास्ति अस्माकं सर्वम् अस्तित्वं ज्ञात्वा वा ज्ञात्वा एतेन एव एतया आकाङ्क्षया एव अस्माकम् अस्तित्वं नियन्त्रितम् अस्ति एव्रिथिङ्ग् इस् गैडेड् बै दिस् डिसैयर् फार् दि इन्फैनैट् ए अस्माकं तु स्पष्टतया चैतन्यं वर्तते इति पूर्वम् अस्माभिः चर्चितं यथा तत्र अस्माभिः उक्तं पूर्णिमारात्रौ तत्र जलस्य दर् इस् अ पटल् आफ् वाटर् तत्र तत्र तत्र मलिनाः न सन्ति चेत् तदानीं चन्द्रस्य प्रतिबिम्बः स्पष्टतया दृश्यते तत्र यदि सरोवरः इति एव चेत् तत्र यदि तत्र स्वच्छम् अस्ति तदानीं चन्द्रस्य चन्द्रस्य प्रतिबिम्बः तत्र स्पष्टतया दृश्यते एवं मनुष्ये मनुष्याणां मनः विक् सम्पूर्णतया यदि मनः स्वच्छम् अस्ति तदानीं अनन्तस्य प्रतिबिम्बः सम्यक्तया स्पष्टतया भवति परन्तु पशुषु तादृश तादृशं नास्ति पशुषु तत् प्रतिबिम्बं स्पष्टतया न प्रतिबिम्बितं पशुषु पशूनां मनसि चैतन्यस्य स्पष्टतया प्रतिबिम्बः नास्ति अतः स्पष्टतया प्रतिबिम्बितम् इति शब्दः अस्माभिः सम्यक्तया अवगन्तव्यं चैतन्यं स्पष्टतया प्रतिबिम्बितम् अस्ति दि कान्शियस्नेस् इस् फुलि रिफ्लेक्टेड् इन् ह्यूमन् बीङ्ग्स् ह्यूमन् बीङ्ग्स् आर् फुल्लि डेवलप्ड् they right, their mind is fully developed so the consciousness is fully reflected in the human being but it's not so in other beings et kim api bhavatu tatra pitilika bhavatu vyagrah bhavatu vanaraha bhavatu et kim api bhavatu pesham manasi chaitanyasya spashtataya pratibimbitam chaitanyam spashtataya pratibimbitam nasthi ataha te ananta sattam prati akrushtaha nasanti parantu manusyeshu spashtataya pratibimbita chaitanyam vartate ये मनुष्याः तत् अनुभोक्तुं समर्थाः सन्ति तेषाम् आन्तरिकनेत्राणि उद्घाटितानि भवन्ति ते ता, ता ताम् प्रति आकृष्टाः भवन्ति इति अत्र विषयः अस्ति इत्येव अत्र विषयः अस्ति ये येषां जनानाम् अन्तःश्चक्षुः उद्घाटितः ते अनन्तं प्रति आकृष्टाः न्ति न तु अन्ये तत्र अनन्तेषणा एव अस्माकं धर्मः अस्ति सर्वेषां मनुष्याणाम् अनन्तेषणा एकः एव धर्मः अस्ति अस्तु ततः अग्रे तत्र धर्मः धर्मः कः इति विषयः अस्ति तत्र, तत्र सर्वाभगिनी पठितुमिच्छति वा भगिनि आं भगिनि इति शब्देन वस्तुतः स्वभावः आङ्ग्लभाषायां धर्म इति शब्देन नेचर वा केरेक्टरिस्टिक् वा प्रापर्टि वा इति उच्यते अग्रे स्वभावः दहनम् अग्नेः स्वभावः दहनम् औषणस्य उत्पादनं वा अयमेव वह्नेः लक्षणं वा गुणः वा, वा अस्ति वह्नि स्वभावः इति अपि उच्यते तथैव च मानवस्य धर्मः स्वभावः वा अस्ति ब्रह्मण अन्वेषणम् इदानीं धर्म इति शब्देन इति अर्थं किं भवति धर्मवस्तुतः वयं जानीमः इति ड्यूटी किन्तु इति ड्यूटी इति लौकिकभाषायां लौकिकव्यवहारे भवति किन्तु धर्मस्य अर्थम् अस्ति इति वस्तुतः अर्थं भवति स्वभावः स्वभावः अस्माकं मानवस्य स्वभावः किम् अस्ति धर्मः अस्ति ब्रह्मणः अन्वेषणं परमपुरुषपरमात्मना तस्य तस्यै तस्मै तैः तेन सह मेलनम् इति अस्माकं धर्मः अस्ति तद्धर्म अस्ति यथा वेदान्ते वदामह सच्चित् आनन्दस्वरूप इति अस्माकं धर्मः अस्ति किन्तु अति लौकिकव्यवहारे इति वयं वदामः सत्यं वद धर्मं चरति यु डू य ड्यूटी यु स्पीक् ट्रु डोन् इति व्यवहारे ड्यूटि वदामः अपि धर्म अपि व्यवहारे इति भवति वयं किम् आश्रमः अस्ति जा, चत्वार आश्रमः वयं वदामः ब्रह्मचर्यग्रस्त वानप्रस्थसंन्यासाश्रम के तस्मिन् आश्रमे कः अस्ति तत् अनुसार धर्म तत् अनुसारं भवति अपि यदि वयं ब्रह, ब्रह्मचर्यं यत् स्टूडेण्ट् भवामः तत् स्टूडेण्ट् धर्म भिन्नं भवति यथा कुटुम्बे मा, माता धर्म मातृ मातुधर्म भिन्नं भवति पुत्रस्य धर्मः मातापितरौ पति प्रति भिन्नं भवति धर्म मा, इति अस्माकं व्यवहारे यत् अर्थम् अस्ति तत् स्वाभाविक इति नास्ति यथा अग्निः अग्नेः स्वभावः अस्ति औष्णम् इति यदि औष्णं नास्ति वयम् अति अग्निः न न वक्तुं शक्नुमः हिम इति शीतम् अस्ति शीतल यदि शीत हिम शीतं नास्ति तस्य हे हेम्म इति न भवितुं शक्नोति तथैव यदि वयं मानव स्मः मानव यदि वयं स्मः यत् अस्माकं यत् धर्मः अस्ति यत् परमपुरुषस्य पुरुषेण न मिलामः तस्य अस्माकं यत् व्यवहारः भवति तत् अपि तस्मा परमपुरुष एव न भावती वयं क्रोधं कुर्मः किमपि केवलं स्वप्रति सर्वम् इच्छामः यदि वयं मानवस्य धर्म कुर्मः तत् अस्माकं मनसि प्रेम भावना भवति जगहितकल् जगहित हिताय यः कोऽपि कर्म कुर्मः कुर्मः तत् वयं कुर्मः इति स्वभावः अस्माकम् अस्माकमपि परिवर्तते यदि अस् अस्माकं मनसि अनन्तईश्रा आगच्छति कोऽपि कार्यं वयं कुर्मः पठामः अपि ईश्वरप्रति पठनं भवति केन सम्मेलनं भवति तु अस्माकं यत् सत्सङ्गति भवति तदपि अस्माकं मित्राणि भिन्ना भवति ये अस्मा अस्मान् सह अस्मा अस्माभिः वार्तामपि ईश्वरं प्रति कुर्व कुर्वन्ति इति भगिनि हा भगिनि सम्यक् हा समीचीनम् अत्र अत्र एकं वक्तो इच्छामि अत्र धर्मः इति शब्दः यः लोके व्यवहारः अस्ति आश्रमधर्मः इत्यादयः अत्र धर्मः इत्यनेन तादृशः तादृशी विवक्षा नास्ति अत्र धर्मः इत्यस्य अर्थः कः इति चेत् सर्वत्र धर्मः इति बहु महत्त्वपूर्णशब्दः अस्ति अतीवमहत्त्वपूर्णशब्दः अस्ति धर्मः इत्युक्ते रिलिजियन् इति अर्थः नास्ति धर्मः इत्युक्ते आश्रमधर्मः इति अर्थः नास्ति धर्मः इत्यस्य कर्तव्यता ड्यूटि इत्यस्य अर्थः अपि नास्ति अत्र धर्मः इत्यस्य बहु सुन्दरीत्या तत्र अर्थः वर्णितः अस्ति धर्मः इत्युक्ते तत्र स्वभावः स्वभावः यथा स्वभावः दहनम् अग्नेः स्वभावः दहनं यद् न दहति तद् अग्निः न भवितुम् अर्हति यथा तत्र जलस्य स्वभावः आद्रीकरणं टु मेक् तिङ्ग्स् वेट् जलस्य स्वभावः यत् तथा न करोति तत् जलमिति न मनुष्यस्य तादृशधर्मः कः विलक्षणः धर्मः कः इति चेत् अत्र अनन्तेषणा ब्रह्मणः एषणा एव अस्माकं विलक्षणः धर्मः अत्र अन्यत् किमपि धर्मः इति वयं स्वीकर्तुं न शक्नुमः यद्यपि लोके तादृशव्यवहारः अस्ति आश्रमधर्मः अथवा अन्यत् किमपि वदन्ति परन्तु तादृशं तु विलक्षणं नास्ति तादृशं तु केषुचित् वर्तते अन्येषु न वर्तते अतः धर्मः इत्युक्ते तादृशं भवेत् यद् सर्वेषु वर्तते परन्तु अन्येषु अन्य विजातीयेषु न भवेत् इत्युक्ते तत् तादृशधर्मः यः धर्मः तादृशः प्रापर्टि विच् शुड् बि देर् इन् आल् द ह्यूमन् बीङ्ग्स् विच् नाट् बि देर् इन् अदर् बीङ्ग्स् सो दट् केन् ओन्ली बि दि अनन्तेशन् देर् के नाट् बि एनिथिङ्ग् एल्स् रैट् इति तु स्पष्टतया अस्माभिः अवगन्तव्यं धर्मः इति यदा वदामः तदानीम् अनन्तेषणा एव विलक्षणः धर्मः तादृशः धर्मः सर्वेषु मनुष्येषु वर्तते तदर्थमेव अस्माभिः पूर्वं आदौ अपि उक्तम् अस्माकं वर्गस्य आद आरम्भे यदा अस्माकं वर्गः आरब्धः आसीत् तदानीम् अस्माभिः उक्तं यदा वयं पर्वतस्य समीपे गच्छामः अथवा uh, सागरस्य समीपे गच्छामः तदानीं वयम् आनन्दं प्राप्तुं प्राप्नुमः तद् तत्र समुद्रः समुद्रः बृहान् अस्ति तत्र विशालता uh... uh... uh... विशालः अस्ति विशाला तद्दृष्ट्वा अस्माकं तत्र मनसि तत्र शान्तिः जायते इति अस्माभिः उक्तं खलु तत्र वयं तादृशविशालवस्तुं दृष्ट्वा विशालवस्तु दृष्ट्वा वयम् आनन्दितः भवामः तत् किमर्थं तादृश आनन्दः अस्माकमेव लभ्यते पशूनां तु तादृशं न लभ्यते किमर्थं तथा अस्ति इति चेत् यतोहि तादृश किमर्थं चेत् अस्माकम् अनन्तेषणा वर्तते वयम् अनन्तं प्राप्तुम् इच्छामः तादृशी इच्छा वर्तते अस्माकम् अन्येषां न वर्तते इति कृत्वा तत्र धर्मः इति शब्दः कः इति have to understand this very very clear what is dharma, the dharma is universal, it is not that it is it changes uh, from place to place, time to time or person to person, no, it इस् got nothing to do with the family one is born into, it has got nothing to do with anything limited, it is इस् यूनिवर्सल् केरेक्टर्स् विच् इस् कामन् टु आल् ह्यूमन् बीङ्ग्स् एण्ड् नाट् अप्लिकेबल् टु नान् ह्यूमन् बीङ्ग्स् ए सो this is a very very deep concept this dharma is a very deep concept and it is it's worthy of lifelong endeavor to fully realize this asmakam sampurna jivanam asmineva dharmasya sakshatkaraya eva bhavati a jivanam purnataya dharmasya sakshatkarartham vayam asmadhi prayasah karaniya tadapi tatra tadapi na paryaptam sampurna jivanam tatra dharmasya manushya dharmasya पूर्तये अस्माभिः यत्नः करणीयः मनुष्यः मनुष्यस्य स्वभावः अनन्तेषण तर्हि अस्माकं स्वभावः इति अस्माकं स्वभावः इति अस्माकं स्वरूपम् अस्ति अस्माकं स्वरूपं सच्चिदानन्दस्वरूपम् अस्ति अस्माकं परन्तु मनुष्याणां स्वभावः अथवा धर्मः कः इति चेत् अनन्तस्य प्राप्तिः अनन्तेषणा एतादृशी एषणा अस्माकम् अस्तित्वे सर्वेषु अंशेषु तस्य प्रसारः भवति तस्य प्रभावः भवति अतः धर्मशब्दस्य गहनतया अस्माकम् अवगमनम् अपेक्षितमस्ति अस्य आवश्यकता अस्ति वि नी टु अण्डर्स्टाण्ड् द इम्पेक्ट् आफ् धर्म आन् आल् आस्पेक्ट्स् आफ़् ह्यूमन् एक्सिस्टेन्स् इट् रिक्वैर्स् कम्प्लीट् अण्डर्स्टाण्डिङ्ग् रैट् इट् इस् काण्ट् आफ़् वाट् इस् द धर्म वि नी टु अण्डर्स्टाण्ड् इट् सो देट् इस् वै वि हाव् एव्रिथिङ्ग् दी टाक्ट् अबौट् सोफार् अस्माकम् आहारः व्यवहारः साधना जनानां जनानां मध्ये तत्र अस्माकं यः सम्भाषणं भवति यत्किमपि अस्माभिः चर्चितवन्तः एतावता अन्यैः जनैः सह कथं संवादः भवेत् समाजरूपेण वयं क कथम् आयोजिताः भवेम जीवने अस्माकं व्यवहारः कथं भवेत् कुत्र वयं पठामः कस्मिन् कस्यां विद्या कस्मिन् विद्यालये वयं पठामः अस्माकं समयः कथं यापनीयः एतत् सर्वम् अस्माकं धर्मेण एव नियन्त्रितमस्ति कथं चिन्तनीयं कथं निद्रा कथं समयः यापितव्यः कियद् धनम् आवश्यकम् अस्ति एतत् सर्वम् अग्रे वयं यमः नियमः इति विषयः अपि वयं चर्चां कुर्मः तदानीं वयम् अवगच्छामः अस्माकं सविधे कियत् धनम् अपेक्षितमस्ति अस्माकं जीवनार्थम् अधिकं धनम् अपेक्षितं वा न्यूनम् अपेक्षितं वा कियत् अपेक्षितम् अस्माकं जीवनार्थम् एतत् सर्वं वयम अवगच्छामः अस्माकं जीवनं कथं भवेत् प्रत्येकस्मिन् क्षणे कथमस् अस्माकं व्यवहारः भवेत् प्रत्येकस्मिन् क्षेत्रे अस्माकं व्यवहारः कथं भवेत् इति सर्वं तत्र योगद्वारा मार्गदर्शनं भवति अतः अत्र धर्मः कः इति अवगन्तव्यं सम्पूर्णतया अवगन्तव्यं तर्हि मनुष्येषु पशुत्वमपि वर्तते पशुत्व धर्मः पशुकामतृप्तिं प्रति मनुष्यान् आकर्षयति किन्तु चैतन्यस्य तर्कः अतृप्तः अस्ति मनुष्यधर्मेण अतृप्तः अस्ति अस्माकं चैतन्यः अतः ये कामाः क्षणिकाः अनित्याः च भवन्ति तैः कामैः अस्माकं चैतन्यं तु तृप्तं न भवति अतः अस्माकं सङ्घर्षः अस्ति तर्हि तत् पशुत्वस्य तर्कस्य अनयोः मध्ये द्वन्द्वः भवति इति तु अस्माभिः ज्ञायते नित्यं द्वन्द्वः भवति एव तर्हि तत्र एतद् द्वन्द्वयुद्धं तत्र सङ्घर्षमेव सूचयति मनुष्यधर्मस्य पशुधर्मस्य सङ्गर्षं सूचयति यदि कश्चित् न जानाति यत् एषः सङ्घर्षः अस्ति इति तर्हि तस्मिन् सः प्रवृत्तः न भवति यदि अस्माकं मानवः धर्मः कः इति न जानाति तस्मिन् प्रवृत्तः न भवति जनाः सङ्घर्षे न प्रवर्तन्ते तर्हि तेषाम् अन्तः पशुस्वभावं तेषां व्यवहारस्य पूर्णतया मार्गदर्शनं करोति नैण्टि नैन् पायिण्ट् नैन् नैन् पर्सेण्ट् मनुष्याणां कृते एतदेव अस्ति तेन अवगच्छन्ति यत् मनुष्यत्वस्य अर्थः कः तेषाम् अन्तः द्वौ सु सह इति तेन अवगच्छन्ति यतोहि तत्र वस्तुतः पशुधर्मः ज्ञातधर्मः अस्ति खलु बहुकालात् पशुधर्मस्य आचरणम् अस्माभिः क्रियते ज्ञातधर्मः अस्ति मानवधर्मः अज्ञातः मार्गः अस्ति अतः तेन अवगच्छन्ति ज्ञातमार्गे गमनं सुलभम् अस्ति खलु यत्र कुत्रापि वयं पश्यामः ज्ञातमार्गे चलनं सुल इति कृत्वा वयं ज्ञातमार्गे एव वा गच्छामः परन्तु यदा अस्माकं ज्ञानं भवति अत्र मानवधर्मः इति अपि अस्ति इति तदानीं वयं यत्नं कुर्मः नो चेत् न तर्हि ये न जानन्ति ते तु लौकिकवस्तुषु तत्र व्यस्ताः भवन्ति भोजने भवतु वेषभूषादिकं वा भवतु यत्किमपि भवतु तत् तस्य, तस्य कृते एव ते आकृष्टाः भवन्ति ते तेषां कृते तत् वस्तुभ्यः किञ्चित् तत्र तृप्तिः भवति इति भाति परन्तु एतानि वस्तूनि सीमितानि सन्ति खलु अतः यद्यपि जनाः तस्मिन् तेषु एव व्यस्ताः भवन्ति परन्तु तत्र तेभ्यः वस्तुभ्यः अस्माकं तृप्तिः कदापि न भवति तृप्तिः न भवति अतः तस्य कारणं किं किमर्थं तृप्तिः न भवति एतेभ्यः वस्तुभ्यः इति चेत् अनन्तकामना अस्ति तादृश तादृश अनन्तकामना सीमितवस्तुभ्यः कदापि पूरिता न भवति अनन्तकामना कदापि न पूरिता भवति सीमितवस्तुभ्यः इति जनाः न अवगच्छन्ति प्रायेण जनाः न अवगच्छन्ति अतः सङ्घर्षः अस्ति वयं पशुभ्यः विकसिताः तथापि अस्माभिः यदा ज्ञायते तत्सर्वम् अस्य सर्वस्य ज्ञानं यदा भवति तदानीं जनाः यत्नं कुर्वन्ति अत्र अत्र किमपि तत्र किमपि क्विक् फिक्स् नास्ति अत्र क्विक् फ़िक्स् इत्युक्ते अत्र यदा यदा वयं मनुष्यधर्मः कः इति जानीमः तदानीम् एवमेव तत्र सर्वं भवति इत्युक्ते तदर्थं यत्नः आवश्यकः अस्ति दर्स् नो क्विक् शार्ट्कट् रैट् यदा वयं जानीमः धर्मः कः तदानीं तत्र वयम् अवगच्छामः तत्र सद्गुरुप्रा सद्गुरुप्राप्तिः अपि भवति यदा uh, मोक्षस्य आकाङ्क्षा वर्तते तदानीं सद्गुरु सद्गुरुप्राप्तिः भवति तदानीं जीवने कथं व्यवहर्तव्यम् अस्माकं जीवनं कथं भवेत् इति सर्वं वयं जानीमः इति अत्र विषयः अस्ति यतः धर्मः इति विषयः बहु बहु मुख्यः विषयः अस्ति अस्माभिः सम्यक्तया अवगन्तव्यं मनुष्यधर्मः इति अवगन्तव्यम् अस्तु तर्हि अस्तु तर्हि इदानीम् अग्रे किञ्चित् गच्छामः अग्रिमपरिचयं प्रति गच्छामः तत्र किं शान्ताभगिनी पठितुमिच्छति वा अस्तु तर्हि कुमार महोदय पठतु द डिग्री आफ् डिविनिटि अस्ति वा कुमार् महोदय विजयपत्नी पठितुमिच्छति वा मम ध्वनिः श्रूयते वा श्रूयते महोदय अहं पठामि पठतु द डिग्री आफ् डिविनिटि इन् ह्यूमन् बीङ्ग् आमां द डिग्री आफ् डिविनिटि इन् ह्यूमन् बीङ्ग्स् इस् इण्डिकेटेड् wider <laughs> clarity now yeah, wider reflect. clearly reflected consciousness every human being having evolved from animals as therefore two aspects the animal aspect and the conscious aspect which distinguishes a person from animals animals display predominantly <laughs> the animal animality why human beings due to a well reflected consciousness also possesses rationality the animality in human beings gives them uh, learning towards animal life or physical enjoyment so they under uh, towards uh, towards animal animal life or physical enjoyment they under its influence look to eating drinking and gratification of any physical desires they are attracted towards these andrun act to them under the influence of this animality but these do not provide happiness as they are longing for it longing for it is infinite animals are satisfied with this limited enjoyments as their urges not infinite however large the quantity of things offered for an animal may be it will take only those which it needs and will not bother for the rest but humans will certainly act different uh, different differently in these conditions this only establishes that animals are satisfied with the limited while the desire of human being, human beings are limitless although the desire for enjoyment is both in both is prompted and governed by the animal aspect of life the difference in the two is due to the possession by the human being of a purely reflected consciousness something which animals lack the infinite nature of the human urge for absolute happiness is due to their consciousness alone it is this consciousness alone which is not satisfied with the physical pleasure of possession power and position ah uh, position things which is which in sight of their huge proportions are only transitory in character it is their consciousness consciousness which creates in human beings the longing for the cosmic entity cosmic entity is a dharma iti atra manushesu uh, manushesu कास्मिक् एण्टिटि इस् वन्ली द्री डोमिनेण्ट् इन्फर्मेशन् अत्र मनुष्येषु अनन्तरम् अत्र पशवः विषये किञ्चित् अत्र परिवर्तनं किम् अभवत् इति मनुष्येषु अत्र इन्फिनिट् अस्ति सः तु किमपि अत्र सन्तोषं न प्राप्तवान् तस्य कृते अत्र सीमा नास्ति परन्तु अत्र अनिम पशवः पा, विषये अत्र किमपि वयं दत्तवन्तः अपि एतत् किञ्चिदेव स्वीकृत्य अत्र पर्याप्तम् इति मनसि पशवः विषये अस्ति परन्तु अनन्तेक्षणा अस्ति मनुष्येषु एतदेव तस्य धर्मः अतः किमपि अत्र प्राप्तुमपि सः न सन्तुष्टवान् इतोपि इतोपि स्वीकर्तव्यं धनविषय अपि अनन्तरं पदवी इति किमपि अस्ति चेत् तत्र सः न सन्तुष्टवान् तस्य अनन्तेक्षणा अस्ति अतः एव एतत् सर्वं भवति एव अनन्तरं तस्य मनसि अपि नीड्स् सर्वदा एतत अपेक्षा अस्ति तस्य मनसि अपि एतत विषये अपेक्षा एव अत्र अस्ति अनन्तरम् अत्र तस्य कान्शियस्नेस् संस्कृतभाषायां किम् महोदय कान्शियस्नेस् परमपुरुषः तस्य मनसि परम पुरुषः अस्ति एव परन्तु एतत् किञ्चित् दूरं सः एतत् स्थापित्वा तस्य मनसि किम् अस्ति एतत् अत्र प्राप् प्राप्तनार्थं किमपि कार्यं कर्तुं सः उद्युक्तः तस्य मनसि उल्लेखकः अस्ति एव तादृशम् अत्र पशवविषये नास्ति इति समीचीनं वा महोदय हा हा सम्यक् भगिनी अहं किञ्चित् इतोपि वदामि पश्यतु तत्र द डिग्री आफ् डिविनिटि इन् ह्यूमन् बीङ्ग्स् इस् इण्डिकेटेड् बै देर् क्लियर्ली रिफ्लेक्टेड् कान्शियस्नेस् इति उक्तं खलु तदर्थं तत्र क्लियर्लि रिफ्लेक्टेड् कान्शियस्नेस् इत्यस्य अर्थः कः इति मया पूर्णं पूर्वं वर्णितमासीत् it is uh, like i was saying that if there is a, on a on a full moon night you can see the clearly you can clearly see the reflection of the moon uh in a puddle of water right if the water is clean you can clearly see the uh, reflection of the moon so in the same way the mental plate of human beings if it is clean then the consciousness is fully reflected right the consciousness is fully reflected it's clearly reflected then that person actually becomes divine He's, we in fact we are all divine we are all divine but the degree of divinity is indicated by the clearly reflected consciousness but if if the mind of human beings are muddied right if they have the malas or doshas right if you have the uh, shat ripus and ashtapashas right which brings the mind down which binds the mind then what happens is that the uh, the consciousness is muddied the consciousness is not clearly reflected right the it's not the consciousness that is muddied but the consciousness is not clearly reflected because the mind is muddied so that is why things said the degree degree of divinity is indicated by the clearly reflected consciousness right so asmavi drishtam yat manishyah pashubyah vikasitah atah pashu dharma api asti manushya dharma api asti ैट् परन्तु मनुष्येषु स्पष्टतया प्रतिबिम्बितम् अस्ति चैतन्यं तत्तु नास्ति पशुषु इति एकः भेदः अस्ति मनुष्याणां पशूनाम् एकः भेदः मनुष्येषु चैतन्यं प्रतिबिम्बितं स्पष्टतया प्रतिबिम्बितम् अस्ति दान्शियस्नेस् इस् ले रिफ्लेक्टेड् इन् ह्यूमन् बीङ्ग्स् विट् इस् नाट् द केस् इन् दस् नाट् द केस् फार् एनिमल्स् पशुषु केवलम् एकः एव धर्मः अस्ति पशुधर्मः तस्य एव एकः धर्मः अस्ति पशुधर्मः आहारनिद्रा भयं मैथुनम् इति एते एव धर्माः सन्ति पशु पशूनां रैट् तर्हि तस्य अन्यत् किमपि नास्ति परन्तु मनुष्येषु स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा मनुष्येषु राश्नालिटि अपि अस्ति तर्कः युक्तिः इति सर्वम् अस्ति मनुष्येषु रैट् मनुष्येषु राशनालिटि अपि अस्ति पशुधर्मः अपि अस्ति पशुधर्मः अस्ति इति कृत्वा ते किं कुर्वन्ति इति चेत् तत्र दे गो फार् फिसिकल् एन्जाय्मेण्ट् रैट् दे लीन् टुवर्ड्स् दि एनिमल् लैफ् फार् फिसिकल् एन्जाय्मेण्ट् सो तदर्थं ते किं कुर्वन्ति इति चेत् आहारे ड्रिङ्किङ्ग् ईटिङ्ग् ग्राटिफिकेशन् आफ़् अदर् फिसिकल् डिसैर्स् एतत् सर्वं कुर्व कुर्वन्ति किमर्थम् इत्युक्ते तेषाम् अन्ते पशुधर्मः वर्तते अतः ते ते तेषां पृष्ठतः एव धावन्तः सन्ति यतोहि तेषु पशुधर्मस्य प्राधान्यं वर्तते परन्तु तेभ्यः ते सुखम् अनन्तसुखं न प्राप्नुवन्ति तेभ्यः सुखं न प्राप्नुवन्ति यतोहि ते किम् इच्छन्ति इति चेत् ते अनन्त एषणा अस्ति दे वाण्ट् दट् कास्मिक् एण्टिटि दे वाण्ट् दट् कास्मिक् एण्टिटि विच् इस् इन्फैनैट् एनिमल्स् आर् सेटिस्फैड् वित् इस् लिमिटेड् एन्जायमेण्ट् बिकास् देर् एर्ज् इस् लिमिटेड् देर् अर्ज् इस् नाट् इन्फैनैट् पशुषु अनन्त एषणा इति कृत्वा ते तृप्ताः भवन्ति आहारनिद्राभयं मैथुनं इत्येतेभ्यः ते तृप्ताः भवन्ति पशु पशु पशोः पुरतः तत्र अधिकभोजनं वयं स्थापयामः चेदपि यावत् अपेक्षितं तावदेव ते स्वीकुर्वन्ति अधिकभोजनमस्ति इति कृत्वा सर्वं ने न स्वीकुर्वन्ति यदि शुनकस्य पार्श्वे तत्र भोजनं स्थापयामः अधिकमात्रारूपेण भोजनं स्थापयामः चेत् यावत् अपेक्षितं तावदेव स्वीकुर्वन्ति तस्मात् अधिकं किमपि न स्वीकुर्वन्ति परन्तु मनुष्याणां विषये तथा नास्ति यदा मनुष्याः रेस्टोरेण्ट् गच्छन्ति तदानीं यदपेक्षितं तस्मात् अद् अपि अधिकं ते खादन्ति किमर्थं खादन्ति ते न जानन्ति वा मम उदरमिदानीं पू पूरितमस्ति तद् इति न जानन्ति वा ते जानन्ति तथापि ते तस्य आ... तत् तस्य विषये चिन्तनं कुर्वन्ति इतोपि अधिकं स्वीकुर्वन्ति किमर्थम् एवं स्वीकुर्वन्ति इति चेत् तत्र मनुष्येषु अपि पशुधर्मः अस्ति पशुषु अपि पशुधर्मः अस्ति परन्तु पशुषु पशुधर्मः अस्ति इति कृत्वा ते अधिकं भोजनं स्वीकरोति इति नास्ति मनुष्येषु पशुधर्मः अस्ति तथापि ते अधिकं स्वीकुर्वन्ति किं किमर्थं स्वीकुर्वन्ति इति चेत् तत्र तेषु अनन्तेषणा वर्तते इति कृत्वा ते कदापि न तृप्ताः भवन्ति दे दस् ओन्ली एस्टाब्लिश् दट् एनिमल्स् आर् सेटिस्फैड् वित् लिमिटेड् बै दि डिज़ैर् आफ् ह्युमन् बीङ्ग्स् इस् लिमिट्लेस् आल्सो दे डिसैयर् फ़ार् एन्जायमेण्ट् इस् बोत् प्राम्टेड् इन् बोत् इस् प्राम्टेड् एण्ड् गवर्ड् बै दि एनिमल् आस्पेक्ट् आफ़् लैफ़् इत्युक्ते अस्माकम् अपि तत्र भोजनस्य इच्छा अस्ति यतोहि पशुधर्मः अस्ति परन्तु अनन्तेषणा अपि अस्ति इति कृत्वा तादृश अनन्तेषण वि अप्लै दिस् अनन्तेषणा टु एव्री आस्पेक्ट् आफ् दि एनिमल् आस्पेक्ट् वि अप्लै टु फूड् क्लोदि एव्रिथिङ्ग् वि अप्लै देट् इस् वै वि वाण्ट् मोर् मोर्ोर् द्रीन् इस् दर् दिस् इस् दी डिफ़्रेन्स् बिट्वीन् द टु रैट् दिस् दिस् की डिफ़्रेन्स् बिट्वीन् एनिमल्स् अण्ड् ह्यूमन् बीङ्ग्स् इस् ड्यू इस् मेन्ल ड्यू टु द फेक्ट् देट ह्यूमन् बीङ्ग्स् ह् अ क्लियर्ल रि रिफ्लेक्टेड् सो वी हेव् द rationality of the chaitanyam which the animals do not have it right so uh we want absolute happiness we want this anant ananteshana asmakam kimartham asti iti cet spashtaya pratibimbita chaitanyam vartate iti krutva it is it is this consciousness alone which is not satisfied with the physical treasures of possession power and position right itikrutva yet kevapi asti tataapi vayam तृप्तः so, you know, न भवामः यतोहि एतानि सीमितानि सन्ति एतानि वस्तूनि सीमितानि सन्ति दीस् आल्लीस् थिङ्ग्स् आर् लिमिटेड् दे केन् ओन्लि गिव् यू ट्रान्सिटोरि हेपिनेस् युनो सुखं भवति दुःखं भवति सुखं भवति दुःखं भवति इति क्षणिकमस्ति एतत् सर्वं hmm? परन्तु अस्माकं अन्ते यत् चैतन्यं वर्तते फ़ुल्लि रिफ्लेक्टेड् कान्शियस्नेस् तदेव अस्माकं का मन्ते चैतन्यं प्रति आकाङ्क्षा आकाङ्क्षा जागरयति आकाङ्क्षां जागरयति स्पष्टतया प्रतिबिम्बितं यत् चैतन्यं वर्तते अस्माकम् अन्ते तदेव दट् ओन्ली क्रियेट्स् दिस् लाङ्गिङ्ग् फ़ार् द कास्मिक् एण्टिटि इन् दि ह्यूमन् बीङ्ग्स् दट् इस् वै वी फील् दट् दट् अक्सम् वी फील् ओ ऐ हेव् एव्रिथिङ्ग् बट् ऐ स्टिल् वाण्ट् संथिङ्ग् दट् फीलिङ्ग् यू हेव् ऐट् दट् इस् मेन्ली ड्यू टु दिस् बिकास् वी हाव् क्लियर्लेक्टेड् कान्शियस्नेस् विच् दि एनिमल्स् डु नाट् पोसेस् रैट् अस्माभिः अस्य सामर्थ्यस्य उपयोगः करणीयः तदेव अत्र विषयः अस्ति यत्किमपि वयं पठामः अस्य सामर्थ्यस्य उपयोगः अस्माभिः कर्तव्य कर्तव्यम् उपयोगः कर्तव्यः अस्ति अन्येषां सर्वेषां प्राणिनां स्वधर्मानुसारं विना विना अन्यः विकल्पः नास्ति वे डोण्ट् हेवट् टु फालो देयर् धर्म बिडालः बिडालधर्मम् अनुसृत्य वर्तते शुनकः इव सः वर्तयितुं न शक्नोति बिडालः बिडालः इव वर्तते शुनकः बिडालवत् न आचरति गजः गजः इव वर्तते वृक्षाः वृक्षाः एव वर्तन्ते तेषां कर्मानुसारं विना अन्यः विकल्पः नास्ति पशूनां परन्तु मनुष्याणां तथा नास्ति मनुष्याणां विकल्पः अस्ति अस्माकं विकल्पः अस्ति पशुधर्मस्य अनुसरणमपि वयं कर्तुं शक्नुमः मानवधर्मस्य अनुसरणमपि वयं कर्तुं शक्नुमः इति अस्माकं स्वेच्छा वर्तते इति महान् महान् भेदः अस्ति अस्माकं स्वेच्छा वर्तते अयं महान् विषयः अस्ति अन्येषां सर्वेषां जीवानां अपि च मनुष्याणाम् अयमेव मुख्यभेदः अस्ति अस्माकं तु स्वेच्छा वर्तते अन्येषां कीटानां सूक्ष्मजीवानां वनस्पतीनां अन्ये ये पशवः सन्ति मत्स्याः यत्किमपि भवतु नाम तत्र वयं पश्यामः चेत् तेषां तु तत्र वयं पूर्वमेव अनुमानं कर्तुं शक्नुमः ते कथं व्यवहरन्ति इति वयं ज्ञातुं शक्नुमः यतोहि तेषां विकल्पः नास्ति अस्य अस्यां परिस्थित्याम् एवं व्यवहरन्ति इति वयं वक्तुं शक्नुमः यतोहि तत्र तेषां विकल्पः नास्ति परन्तु मनुष्याणां तथा नास्ति अस्माकं विकल्पः अस्ति वयं एतादृशी परिस्थितिः अस्ति चेत् परिस्थितिः अस्ति चेत् वयं कथं व्यवहरामः इति वयं न वक्तुं शक्नुमः अत्र यः योगिः योगिः योगी अस्ति सः भिन्नरीत्या व्यवहरति परन्तु यः सामान्यः मनुष्यः अस्ति सः तु पशुधर्मे एव व्यस्तः अस्ति इति कृत्वा सः भिन्नरीत्या अतः मनुष्याणां मध्ये व्यवहारे भेदः भवितुमर्हति व्यवहारे भेदः भवितुम् अर्हति यतोहि अस्माकं संस्कारः कथमस्ति तदाधारेण व्यवहारः भिन्नः भवितुम् अर्हति अस्माकं तु विकल्पः वर्तते वि हाव् अ वेरि पवर्फुल् आप्शन् वि वाट् यूटिलैस् इट् अर् नट् इस् इस् इस् अप् टु अस् मनुष्याणां स्वभावस्य कारणेन प्रा प्रायः स्वधर्मस्य अनुसरणं कर्तव्यं वा न वा इति विकल्पः अस्ति परन्तु अधिकांशतः जनाः विकल्पस्य प्रयोगं न कुर्वन्ति दे डोण्ट् यूस् दे स्वेच्छा तत्र स्वशक्तेः उपयोगं न कुर्वन्ति तर्हि किं भवति परिणामः इति चेत् तत् पशुः इव व्यवहरति खलु स अतः सः पूर्णनि पूर्णपूर्वनिर्धारितरूपेण परिचितमार्गे सः गच्छति पशुवत् व्यवहारः भवति पशूनां तु पशुवत् पशु व्यवहारः अस्ति परन्तु मनुष्याणां पशुवत् व्यवहारः अस्ति इति अनयोः भेदः कः इति चेत् मनुष्येषु अन्यः अपि धर्मः अस्ति परन्तु तादृशधर्मस्य प्रयोगः मनुष्यः न करोति धर्मस्य प्रयोगं न करोति तर्हि पशवः पशवः एव वर् वर्तन्ते किमर्थं ते तेषां विकल्पः नास्ति मनुष्याणां तु अधिकं सामर्थ्यं वर्तते इति अस्माभिः सर्वदा स्मर्तव्यम् अस्माकं बहु अधिकं सामर्थ्यं वर्तते तर्हि यदि तत्र मनुष्याणां सामर्थ्यं यदस्ति तस्य उपयोगं न कुर्मः तदा तदानीम् अस्माकं व्यवहारः पशुभ्यः अपि अधः भवति दुष्टतरः भवति स्वभावः पशूनां तु विकल्पः नास्ति परन्तु अस्माकं विभाव विकल्पः अस्ति तथापि वयं तथा, तथा व्यवहारं कुर्मः कुर्मः यदि मानवः पशुवत् कार्यं करोति तर्हि तत्तु न सम्यक् खलु सम्यक् नास्ति खलु मनुष्यः मनुष्य इव अस्माभिः व्यवहर्तव्यं यदि पशुभ्यः अपि नीचतरः अस्ति अस्माकं व्यवहारः तत्तु सम्यक् नास्ति तर्हि अस्माकं मनसः अवनतिः भवति इट् डीग्रेड् द मैण्ड् इफ् यु बिहेव् लैक् एनिमल्स् देन् इट् डीग्रेड् द मैण्ड् तर्हि तदर्थं वयं वदामः सः मनुष्यरूपेण पशुः अस्ति इति वयं वदामः इस् ह्यूमन् बीङ्ग् इन् एन् एनिमल् इस् इस् एन् एनिमल् इन् अ ह्यूमन् फार्म् इति वयं ये जनाः योगमार्गे प्रवृत्ताः सन्ति ते एतत् सर्वम् परन्तु अन्ये जनाः न अवगच्छन्ति इति कृत्वा वयं तेषां सविधे गत्वा न वदामः ओ भवान् पशुरूपेण अस्ति इति एनिमल् इन् ह्यूमन् फार्म् बहु भवान् पशुः मानवरूपेण पशुः इति वयं uh, तं प्रति न वदामः तथा न वदामः तत्तु सम्यक् नास्ति वयं न ना वदामः तेषाम् उन्नयनार्थं ते, उन, ते कथम् अग्रगतिं प्राप्तुं शक्नुवन्ति इति तदर्थं वयं यत्नः कुर्मः परन्तु तेषाम् अधोगमनार्थं वयं न प्रयासं न कुर्मः तेषाम् उन्नयनार्थं वयं प्रयासं कुर्मः इत्युक्ते प्रथमतया अस्माभिः एतत् सर्वम् अवगन्तव्यम् अत्र य कः सिद्धान्तः अस्ति तस्य सम्यक्तया सिद्धान्त सिद्धान्तः कः इति अवगच्छामः चेत् तस्य अनुसरणं वयं कर्तुं शक्नुमः अस्माकं ये सिद्धान्तः सन्ति तेषाम् अनुसरणं प्रथमतया अस्माभिः कर्तव्यं यदा अस्माभिः क्रियते तदानीं तेषां प्रेरणामपि वयं कर्तुं शक्नुमः तर्हि ये जनाः पशुवर् पशुवत् व्यवहरन्ति तेषाम् उन्नयनार्थं वयं स्वभावं तेषां स्वभावस्य परिवर्तनार्थं वयं प्रयासं कर्तुं शक्नुमः परन्तु तेभ्यः तैः सह यदा व्यवहारं कुर्मः तदानीम् अस्माकं व्यवहारः समीचीनं भवति तेषां निन्दा न भवति तेषां निन्दां वयं न कुर्मः योगी यः अस्ति साधकः यः अस्ति सः सर्वप्रियः अस्ति सर्वे तम् इच्छन्ति बहु विनयः अस्ति विनयरूपेण सः व्यवहारं करोति गर्वः नास्ति गर्वविहीनः अस्ति सः खलु सः एव योगी भवितुमर्हति यस्य गर्वः अस्ति सः योगी न भवितुमर्हति खलु तर्हि अस्माकं स्वजीवनस्य उन्न उन्नयनार्थम् अग्रे गमनार्थं तत्र धर्मः कः इति अस्माभिः सम्यक्तया अवगन्तव्यम् अस्तु तर्हि किञ्चित् अग्रे गच्छामः अत्र मनुष्यरूपेण मृगाः चरन्ति इति नीतिशतके भर्तृहरिणा अपि उक्तं महोदय आमां समीचीनम् आं समीचीनम् अनन्तरं महोदय अत्र रेश्नालिटि इत्युक्ते संस्कृतभाषायां तर्कः इति वा विवेकः विवेकः विवेकः इति वक्तुं शक्नुमः युक्तिः अतिः विवेकः इति वक्तुं शक्तिः विवेकः अस्तु महोदय परन्तु तत्र लाजिक् अपि अस्ति खलु लाजिक् अपि अस्ति युक्तिः अपि अस्ति तर्कः अस्ति सर्वमस्ति तत्र विवेकः अस्तु प्रियभगिनी अग्रे अन्तिमपरिचयं पठति वा एकवारं भगिनि क्षम्यतां भगिनि अन्य कोऽपि अच्चा अच्चा ओके ओके नो नो ओके सरलाभगिनी पठतु भगिनी अस्ति वा आम् आम भगिनि भौतिक अर्थात् भौतिकभोगाः मानवहृदये आनन्दस्य तृष्णां न शमयन्ति तथापि जनाः तान् प्रति आकृष्टाः भवन्ति इति वयं पश्यामः मनुष्येषु विद्यमानं पशुत्वं जनान् पशुकामान् पशुकामानां तोषणं प्रति आकर्षयति परन्तु मनुष्याणां चैतन्येन प्रेरितविवेकः असन्तुष्टः तिष्ठति यतोहि एते पशुकाम्नाः अशाश्वताः श्र सन्ति एते मनुष्ये एते मनुष्यचेतनायाः अनन्ताम् असीमितां च शुद्धां शमितुम् अपर्याप्ताः भवन्ति अतः एव मनुष्येषु नित्यरूपेण पशुत्व विवेकयोः मध्ये द्वन्द्वयुधम् प्रवर्तमानं विद्यते पशुपक्षः मनुष्यमान् मनुष्यान् क्षणिकं लो लौकिकसुखं प्रति आकर्षयति किन्तु एते हि मनुष्याणां चेतना असन्तुष्टा जनान् अनन्तं प्रति आकर्षयति अनेन पशुपक्षस्य पशु पशुपक्षस्य चैतन्यस्य च सङ्घर्षः भवति यदि ऐश्वर्यं शक्ति पद्वि च एत्येते एत्ये अर्जितानि लौकिकसुखानि असीमानि अनन्तानि च अभवश्य अभविष्यन् तर्हि तैः अवश्यं हि चैतन्यस्य नित्यानन्द प्राप्तुम् इच्छा शमिता अभविष्यन् परन्तु अनित्यानि लौकिकसुखानि न असीमानि न वा अनन्तानि अतः तेषां क्षणिक क्षणिकमहिमा न कदापि मनुष्यमनसि शाश्वतशान्तिम् प्रदातुं शक्नोति मनुष्याम् मनुष्यान् आनन्दं प्रति नेतुमपि न शक्नोति यथा इदानीं भवती उक्तवती मनुष्ये धर्मद्वयम् अस्ति पशु धर्म अपि मनुष्यधर्म पशुधर्म तु ज्ञातधर्म अस्ति पूर्वं तस्मात् वयं विकस् विकसिताः स्मः अस्ति किन्तु अस्माकं यत् मानवधर्म अस्ति वयम् इदानीं विस्मरामः किम् अस्माकं मानवधर्म अस्ति वयं भौ भौतिक विषयान् प्रति अस्माकम् आकर्षणम् अधिकम् अधिको अधिकं भवति किन्तु इति अस्माभिः यदि कोऽपि स्मारयति अस्माकं धर्मः किम् अस्ति अस्माकं अस्माकं व्यवहारं कथं कर् करणीयं तदानीम् एव वयं जान जानीमः मनुष्येषु यत् मनुष्यधर्मः अस्ति तस्य पालनं करणीयं यथा इदानीं तु वयं Uh, अधिका पु जनाः इति तेषां यत् व्यवहारः अस्ति भौतिकवस्तूनि प्रति प्रचलति ते तेषाम् आकर्षणं भौतिकवस्तूनि प्रति अस्ति खाद्यं क कथं भवेत् पेयं कथं भवेत् वा वस् वस्त्राणि इति या पदवी प्राप्तुम् इच्छन्ति वा अधिकम् अधिकं धनं धनं प्राप्तं तेषाम् इच्छा भवति किन्तु ये सर्वे ये कामनाः अस्माभिः अस्माकं हृदे सन्ति ते सर्वे आ, वयं तत् प्राप्तुं पुरुषार्थं कुर्मः किन्तु तदनन्तरं तस्य पुरुषार्थं कर्तुं वयं का वस्तु वा पदवी वा किमपि किमपि वयं अस्माभिः प्राप्ता भवति तदनन्तरं तृप्तिक्षणिकभङ्गुर भवति तदनन्तरं पुनः अन्य काम्ना आगच्छति मनसि तत् प्रति पुनः तत् पुरुषार्थं वा या यतनं भवति इति अस्माकं यत् जीवनम् अस्ति एकम एकम् आकाङ्क्षा पूर्ति कर् एव व्यतीतं भवति इति अस्ति किन्तु यदि वयम विवेकस्य प्रयोगं कुर्मः किं मम जीवनं जीवनं जीवनस्य उपायः किम् अस्ति मम जीवनस्य कि लक्ष्यं किम् अस्ति इति यदि लक्ष्यं जानीमः त वयं अनित्य रूप, रूपेण अस्मा अस्माकम् इदानीम् आकर्षणम् अस्ति तत् शनैः शनैः वयं अस्य न्यूनं कर्तुम् अस्माकम् परिवर्तनं यूट् कुर्मः अनन्तं प्रति अन्तः प्रति न तु बाह्य दृष्टि कुर्मः इति द्वन्द्व यत् अस्माकं हृदये अस्ति किदा द्वन्द्व प्रचलति अहं एतत् इच्छा पूर्ति कुर्मः अहं गृह तथा रेस्टोरा गन्तुं खादामि स्वयं सात्विकभोजनं पक्तुं खादामि इति तस्य इति अस्माकं हृदये इति द्वन्द्व चल् प्रचलति तत् वयं प्रथममिति द्वन्द च प्रचलति किन्तु यदि तत् वयं विवेकस्य प्रयोगं कुर्मः त तस्मात् अस्माकं ज्ञानचक्षुः अपि उद्घाटयति उद्घटयति तदनन्तरं वयं शनैः शनैः अस्माकम् आकर्षणम् अपि पशुवृत्ति प्रति Uh, न्यूनं भवति तद्यत् वयम् ऐश्वर्यं पूर्वं ऐश्वर्यं वा पदवी इति um, uh, प्राप्तुम् अस्माकं uh, यत् प्रयत्नं प्रचलन् अस्ति तत् वयम् इदानीं uh, व्यर्थं uh, Uh, uh, भावयामः अनुभवायामः अपि uh, यत् शाश्वतसुखम् अस्ति uh, अनन्तं सुखम् uh, अस्ति वा आनन्द पूर्ण आनन्दम् अस्ति तस्य प्राप्तिः यत् अस्ति तत् व यत् वयम् इदानीं uh, विषयान् प्रति uh, uh, प्राप्तुम् इति uh, अनुभवामः तत् uh, भङ्ग भङ्ग भवति इति अस्ति भगिनि यत् भवती इदानीं भा, बहु स्पष्टतया अस्माभिः बोधितवती mm. इति अस्ति अस् अस्मिन् पर, परिच्छेदे अपि सम्यक् भवति समी समीचीनं समीचीनं समीचीनम् इत्युक्ते तत्र येषु मनुष्येषु पशुधर्मस्य प्राधान्यं भवति तदानीं ते लौकिकवस्तु वस्तुभ्यः ते आकृष्टाः भवन्ति परन्तु मनुष्ये यः परमपुरुषः अस्ति सः एतैः वस्तुभिः तृप्तः न भवति यतोहि एतानि लौकिकवस्तूनि क्षणिकानि अनित्यानि च सन्ति अस्माकम् अनन्तेषां पूरयितुम् एतानि न शक्नुवन्ति अतः अस्माकम् अन्ते निरन्तरं द्वन्द्वयुद्धं प्रचलति मनुष्यधर्मः अनन्तं प्रति नयति पशुधर्मः वस्तूनि प्रति अतः अनयोः धर्मयोः मध्ये युद्धं जायते यदि लौकिकवस्तूनि अनन्तानि अभविष्यन् तर्हि तानि अनन्तेषणां पूरयितुं शक्नुवन्ति परन्तु ते तानि तथा न सन्ति लौकिकवस्तूनि अनन्तानि न सन्ति इति कृत्वा अतः एव दीस् द फ्लीपिङ्ग् ग्लोरि आफ़् द टेम्प्रल् जाय्स् केन् नेवर् सेक्यूर् लास्टिङ्ग् पीस् इन् ह्यूमन् मैण्ड् अण्ड् लीड् पीपल् टु एक्स्प्री केन् नेवर् गेट् द अन्लिमिटेड् हेपिनेस् जस्ट् फ्रोम् दीस् Uh, you know, uh, from the objects of the world. These are all limited objects of the world. They can never give us the lasting peace and happiness. And human beings want that lasting peace and happiness. And that is what the human mind desires. And that can never be obtained from these limited objects of the world. That is the Atrasaniparachade Uttamassi. Astu Tarhi, Atras Paganam Kurmaha, Itaha Agri Agri Mishapta He Gacha Maha. Kopi Prashnaha Siva. सूतर्हि अत्र सगनं कुर्मः धन्यवादः नमस्कारः नमस्कारः धन्यवादः धन्यवादः नमस्कारः नमस्कारः